श्रीहरे नमः अथ अष्टदशोऽध्यायः श्रीशुक उपाच इत्थं विरिञ्च स्तुतकर्मवीर्य प्रादुर्बभूवमृत्तभूदित्यां चतुर्भुज शङ्घ गदाब्जचक्रपिसङ्गवासा नलिनाय देक्षणः श्यामाधातो जशराजकुण्ठलद्विषेलोलसत् श्रीवधनाम्बुजः पुमान् श्रीवत्सवक्षावलयाङ्गधोल्लसत् किरीटकाञ्चीगुणचारुणुपुरः <laughs> मतुव्रतव्रातविगुष्ठया स्वया विराजितः श्रीवनमालया हरिः प्रजापतेर्वेश्मतमस्वरोचिशा विनाशयन् कण्ठनिविष्टकौस्तुभः दिश प्रसेदुसलिलासयास्तधा व्रजा गुणान्विताः द्यौरन्धरे कावो द्विजाश्च सञ्जगृशुर्नगाश्च श्रूयाणां श्रवणद्वादश्यां मुहूर्तेभिजितिः प्रभुः सर्वे नक्षत्रधाराद्याश्चक्रुस्तज्जन्मदक्षिणम् द्वादस्याम् सविता तिष्ठन्मद्यन्नि दिनगतो नृप विजया नाम सा प्रोक्ता यस्यां जन्म विदुर्हरेः सङ्कधुन्दुपयोनेदुर्मृदङ्गणवानकः चित्रबाधित्रधूर्याणां निर्गोषस्तु मुलोऽभवत् प्रीताश्चाप्सरसो निरुध्यन् गन्धर्व प्रवरा जगुः तुष्टुर्मुनयो देवामनवः पितरोऽग्नयः सिद्धविद्याधरगणास किं पुरुष किं नराः शरणायक्षरक्षांसी सुपर्णाबुजगोत्तमाः गायन्तोतिप्रशंसन्तो नृत्यन्तो विबुधानुगाः आदित्य त्या आश्रमपथं कुसुमैः समवा किरन् दृष्ट्वादितिस्तं निजगर्भसम्भवं परं पुमांसं मुदमापविस्मिता गृहीतदेहं निजयोगमायया प्रजापतिश्चाकजयेति विस्मितः यत्तत्त्वपुर्भाति विभूषणायुधै अव्यक्तचित् व्यक्तमधारयत् हरिः बभूवते नैव स वामनो वटो सम्पश्यतोदिव्यगतिर्यथा तं वटुं वामनं दृष्ट्वा मोदमा नामकर्षयः कर्माणि कारयामासो पुरस्कृत्य प्रजापतिम् तस्य उपनीयमानस्य सावित्रीं सविता ब्रवीत् बृहस्पतिर्ब्रह्मसूत्रं मे दधौ कृष्णार्जिनं भूमेर्दण्डं सोमो वनस्पतिः कौपीनाश्चादनं माता द्यौश्चत्रं जगतः र्षयो धतुः अक्षमाला महाराज सरस्वती अव्ययात्मनः तस्मा इत्युपनीताय अक्षरात् भिक्षां भगवति साक्षात् उमाधातम् विकासति स ब्रह्मवर्चसेनैवं सभां सम्भावितो बटुः rocata marishahan समिद्धमाहितं भग्निं कृत्वा परिसमूहनं परिस्थिर्यसमाभ्यश्च समिद्भि अजुहोद्विजहा श्रुत्वा स्वमेधैर्यजमानमूर्जितं बलिं भृगूणाम् उपकल्पितैस्ततः जगाम तत्रा किल सरा सम्भृतो सन्नमयन् पदे तं नर्मदायास्तडमुत्तरे बलेर्यरुद्विजस्ते भृगुकच्छसंज्ञघे प्रवर्तयन्तो भृगवक्रदुत्तमं व्यचक्षतारात् उदितं यथा रविम् तदृद्विजो यजमानः सदस्यो हतत् विशो वामन तेजसा नृप सूर्यकिला यात्युतवा विभावसु सनन्कुमारो भगवान् स छत्रं सदण्डं सजलं कमण्डलुं विवेशबिव्र हयमेधवाटं मौञ्जामे कलया उपवीदाजिनोत्तरं जटिलं वामनं विप्रम् हरिम् प्रविष्टं भीक्षृगभः सिशते सगाग्निभिः प्रद्यग्रघ्नन् समुत्थाय संक्षिप्तास्तस्य तेजसा यजमानः प्रमुदितो दर्शनीयं मनोरमं रूपानुरूपा वयवं तस्मा आसनम् आहरत् स्वागतेनाभिनन्द्यात भौतो भगवतो बलिः अवनिजार्चयामासामुत्थसङ्गमनोरमं तद्भात शौचं जनकल्मषापहं स धर्मविद् मूर्ज्ञदतात् सुमङ्गलं यद्देवदेवो गिरिसच्चन्द्रमौळिर्दधारमूर्ध्ना परया च भक्त्या बलिरुवाच स्वागतं ते नमस्तुभ्यं ब्रह्मन् किं करवाम ते ब्रह्मर्षीणां तपक्साशान्मन्ये त्वार्यवभुर्धरम् अद्य नः पितरस्तृप्ता अध्याग्नयो मे सुहृता याधविति द्विजात्मजत्वच्चरणा वने जनैः कथां च भूरहो तथा पुनीतादनुभिः पदैस्तव यद्यद्वटो वाञ्छसि तत्प्रतीच मे त्वामर्तिनं विप्रसुतानुतर्कये गाङ्काञ्चनं गुणवद्धामृष्टं सदान्नपेयमुत वा विप्रकन्यां ग्रामान् समृद्धां स्तुरगान् गजान् वा वारतांस्तदार्हत्म सम्प्रति च इति श्रीमद्भागवते महापुराणे अष्टमस्कन्धे वामनप्रादुर्भावे बलिवामनसंवादे अष्टदशोऽध्यायः सर्वत्र गोपिका जीवनस्मरणं गोविन्द गोविन्द सद्गुरुनाथमगराजकी जय